श्रीमद्भागवत् महापुराणं दशमस्कन्ध अथ तृतीयोऽध्यायः भगवान् श्रीकृष्णका प्राकट्य श्रीशोकुवाच अथ सर्वगुणोपेतकालपरमशोभनः यर्हे शांतर्ष शान्तर्षगृहतारकम् दिश प्रसे दुर्गगणं निर्मलो डुङ्गणोदयं महीमङ्गलभूयिष्ठपुरग्रामव्रजाकरा नद्य प्रसन्नसलिला ह्रदं ह्रदाज्जलरुहश्रियः भवौ वायु सुखस्पर्श पुण्यगन्धवः शुचि अग्नयश्च द्विजातीनां शान्तास्तत्र समिन्धत मनां शासन् प्रसन्नानि साधूनां सुरद्रुहां जायमाने जने तस्मिन्ने दुर्दुन्दुभयो दिवीं जगो किन्नरगन्धर्वा तुष्टभो सिद्धचारणाः विद्याधर्यश्च ननितो सरसोभि समं तदा मुमूर्त्युर्मुणयो देवासुमनांसि सुतान्विताः मन्दं मन्दं जलधरां जगर्जूरनुसागरम् निशीथे तमुद्भूते जायमाने जनार्दने देवक्यां देवरूपिण्यां विष्णुसर्वगुहाशयः आविरासी यथा प्राच्यां दिसिन्दूरिव पुष्कलः तमद्भुतं बालकुमं द्युकिं क्षैद्येक्षणं चतुर्भुजं शङ्खगदार्जुदायुधम् श्रीवत्सलक्ष्मं गलशोभिकौस्तुभं पीताम्बरं श्रां सान्द्रपयोदसौभगम् महार्षवैदुर्यकिरीटकुण्डल तु सा परिष्वक्तसहस्रकुन्तलम् उद्दामकाङ्ग्यङ्गदं कङ्कणादिभि विरोचमानं वचुदेव यैक्षत स विस्मयोत्पुल्लविलोचनो हरिं सितं विलोक्या न कदन्दुभिस्तदा मुदा द्विजेभ्यो युतमाप्लुतो गवाम् अथै नमस्तौ दवधायं पुरुषं परं ना तन्नताङ्गकृतधीकृताञ्जलिः सरोचि सा भारतसूचिका गृहं विरोचयन्तं गतिभिः प्रभाववित् वसुदेवाच विदितोऽसि भवान् साक्षात्पुरुषः प्रकृते परः केवलानुभवानन्दस्वरूप सर्वबुद्धिरे स एव स्वप्रकृत्येदं श्रेष्ठवाग्रे त्रिगुणात्मकं तनून्तदनुत्वं ह्य प्रविष्ट प्रविष्ट इव भाव्यसे यथेमे विकृता भावास्तथा ते विकृतैः सह नानाभिर्या पृथग्भूता विराजं जनयन्ति हि सन्निपत्य समुत्पाद्य दृश्यन्तेऽनुगता इव प्रागेव विद्यमानत्वान्न तेषामिह सम्भवः एवं भवान बुद्ध्यनु मे मेयलक्षणै ग्रहागुणैः सन्नपि तद्गुणाग्रहनावृतत्वान् बहिरन्तरं न सर्वस्य सर्वात्मन आत्मवस्तुनः य आत्मनोद्दिश्य गुणेषु सन्निते व्यवस्यते स्वव्यतिरेकतो बुधः विनादुवादं न च तन्मनीषितं सम्यग्यतस्त्यक्तमुदापदत्पुमान् तत्तोष्य जन्मस्थितयमानविभो वदन्तनेहादगुणादविक्रियाद् तयेश्वरे ब्रह्मणिनो विरुध्यते तदाश्रियत्वादुपचर्यते गुणैः ततम् त्रिलोकस्थितये स्वमायया बिभर्षि शुक्लं खलु वर्णमात्मनः तर्गाय रक्तं रजसोपव्रीहितं कृष्णं च वर्णं तमसा जनात्ये त्वमस्य लोकस्य विभूरिक्षिषो गृहेऽवतीर्णोऽसि ममाखिलेश्वर राजन्यसंज्ञासुरकोटियूथपये निर्व्यूह्यमानानि हनिष्यशे च मुहुम् अयं तस्सभ्यस्तवं जन्मनो गृहे श्रुत्वा गृजास्तेनवधीत्सुरेश्वर सदेवतारं पुरुषैः समर्पितं श्रुत्वाधुनैवाभिसरद्युतायुधः श्रीशोकुवाच अथैनमात्मजं व्यक्ष्य महापुरुषलक्षणं देवकेतमुपाधावत् कंसाद्भीता सुचिस्मृता देवक्युवाच रूपं यत्तत्प्राहुरव्यक्तमाद्यं ब्रह्मज्योतिर्निर्गुणं निर्विकारं सत्तामात्रं निर्विशेषं निरेहं श त्वं नष्टे लोके द्विपरार्धावशाले महाभूते स्वालिभूतं गतेषु व्यक्ते व्यक्तं कालवेगेन याते भवानेकशिष्यते शेषसंज्ञः योऽयं कालस्तस्य ते व्यक्तबन्धो चेष्टामाहोश्चेष्टते येन विश्वं निमेषादिवत्सरान्तो महीयां तं तेषां चेमधामप्रपद्ये नर्त्यो मृत्युव्यालभीत पलायन् लोकान् सर्वान् निर्भयं नाद्य गच्छत् तत्पादाब्जं प्राप्य यदीक्षयाद्य स्वस्थशेते मृत्युरस्मादपैति स त्वं घोरादुग्रसेनात्मजानन् नहितस्तान् पितृवित्रा रूपं चेदं पौरुषं ध्यानधिष्णयं मा प्रत्यक्षं मां सदृशां कृशिष्ठा जन्मते मय्यसौ पापो मा विद्यान्मधुसूदन समुद्विदे भवद्भेदोकंसाध्वमधीरधीः उपसङ्गरविश्वात्मन्नदो रूपमौलिकं शङ्खचक्रगदा पद्मश्रियाजिष्णं चतुर्भुजम् विश्वं यदेतत्स्वन् स्वतनौ नुशान्ते यथावकाशं पुरुषपरो भवान् जिभर्ति सोऽयं मम गर्भगोभूदहो निलोकस्य पिटं वनं